हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायण युद्धकाण्डे द्वि पञ्चाशत् सर्गः युद्धं तस्य अनुमतावधश्च धूम्राक्षम् प्रेक्ष राक्षसं भीम विक्रमम् विने दुर्वानर सर्वे प्ररुष्टा युद्ध तेषां श्रोतुमलम् युद्धम् सञ्जज्ञे कपि रक्षसान् अन्योन्यं पादपै घोरे निघ्नतां शूलमुद्गरे राक्षसे वानरा घोरा विनिकृता समन्ततः वानरे राक्षसा चापि द्रुमैर्भूमिः समीकृतः राक्षसभि च वानरान् निश्चेशरी दिव्यधुर्घोर संगाशे कङ्कपत्रैरम्यजिम्हगै ते गताभि भी च भीमाभिः पश्चिषै कूटमुद्गरे घोरैश्च पुरीहै चित्रै त्रिशूलै चापि संस्कृतै विदार्यमाणारक्षोभि वानरास्ते महाबलह। अमश्च जनितोद्धर्ष चक्रु कर्माण्यभीतवै शरन् शरनिर्भिन्न गात्रा ते शूल निर्भिन्न देहिनः जगुरुः ते द्रुमान् तत्र शिलाश्च हरि उत्थपः ते भीमवेगा हरियो नर्दमानास्ततः मम राक्षसान् वीरान् नामानि च बभाशिरे तद्बभूवाद्भुतम् घोरम् युद्धम् वानर रक्षसाम् शिलाभि विविधाभिश्च बहुशाखैश्च पादपै राक्षसा मसिता केचित् वानरैर्जित काशिभिः प्रवे मूरुधिरम् केचिन् मुखैरुधीर भोजनः पार्श्वेषु दारिता केचिद् राशि कृता द्रुमैः शिवाभिश्चूर्णिता केचित् केचिदन्तैर्विदारिता ध्वज विमथितैर्भग्नैः खड्गैश्च विनिपातितै रथेर्विध्वंसितैः केचित् व्यथिता रजिनीचरः गजेन्द्रैः पर्वताकारे पर्वताग्रैव पर्वता नौकसाम् वथितै वाजिभिः किरणम् वसुधातलम् वानरे भीमविक्रान्तै आप्लुत्युत्प्लुत्य वेगेगितै रक्षस करजे तीक्ष्णै मुखेषु विनिदारितः विषण्ड वदना भूयो विप्रकीर्ण शिरोरुः मूढा शोणितगन्धेन निपेतु धरणीतले अन्ये च परम क्रुद्ध राक्षसा भीम विक्रमः तलैरेवाभिधावन्ति वज्रस्पर्शः समय हरिन् वानरे पातयन्तस्ते वेगिता वेगवत्तरे मुष्टिभिः चरणैरन्तै पादपै चावकोथितः सैन्यं तु विदृतं धृष्ट्वा धूम्राक्षो राक्षसर्शभ रोषेण कदलं चक्रे वानराणां युत्सताम् प्रासे प्रमथिता केचित् वानर शोणितश्रवः मुद्रैः आहता केचित् पतिता धरणीतले परेघै मथिता केचित् बिन्दीपालैश्च दारितः पट्टिषै मथिता केचित् विह्वलन्तो गता सवः केचिद् विनीहता भूमौ हृदिरार्द्रावनोकसः केचित् विद्राविता नष्टा संक्रुद्धै राक्षसैर्युधि विभिन्न हृदया केचित् एकपार्श्वे न शयिता विदारिता त्रिशूलैश्च केचिदान्त्रैर्विनिसृता तत्सु भीमम् हद्युद्धम् हरी राक्षस शङ्कुलम् प्रबहो शस्त्र बहुलम् शिलापादप सङ्कुलम् धनुर्जातन्त्रि मधुरम् हिक् कातालसमन्वितम् मन्दस्तरीत धूम्राक्षस्तु धनुष्पाणि वानरान्द्रण मूर्धनि दिशताञ्चरवृष्टिभिः धूम्रुक्षेणार्जितम् सैन्यम् व्यथितम् प्रेक्ष स्मारुतिः अभ्यवर्तत संक्रुद्ध प्रगृह्य विपुलाम् क्रोधाद् क्रोधा द्विगुणताम् राक्षस पराक्रमः शिलाम् ताम् धूम्राक्षस्य रथम् प्रति आपतन्तीम् शिलाम् धृष्ट्वा गदामुद्यम्य सम्भृतम् रथादाप्लुत्य वेगेन वसुधायाम् व्यतिष्ठते स्वप्रमथ्य रथम् तस्य निपपात शिव भुवि स्वचक्रकूपरम् सा शाश्वम् सध्वजम् सा स शरासनम् स भङ्क्त्वा तु तस्य हनुमान् मारुतात्मज रक्षताम् कदनम् चक्रे स्कन्ध विटपै ध्रुमै विभिन्न शिरसो भूत्वा राक्षसा रुधिता चे निपेतोले विद्राव्य राक्षसं सैन्यम् हनुमान् मारुतात्मज गिरि शिखरमादाय धूम्राक्षम् अभिवदु ध्रुवे गदामुद्यम्य वीर्यवान् विनर्दमानः स स हनुमन्तमभिद्रवत् तस्य क्रुद्धस्य रोषेण गदाम् ताम् बहुकण्टकाम् पासयामास धूम्राशो मस्तकेथ हनुमतः साडितः स तया तत्र गदया भीमवेगया स कपि सम्प्रहारम् मचिन्तयन् धूम्राक्षस्य शिरो मध्ये गिरिशृङ्गम् अपातयत् स विस्फारित सर्वाङ्गो गिरिशृङ्गेण ताडितः पपात सहसा भूमौ विकीर्ण इव पर्वतः धूम्राक्षम् नियतम् दृष्ट्वा हतशेषा निचाचरः स्रस्ता प्रवेविषु लङ्काम् वध्यमानः प्लवङ्गमयि स तु पवनसुतो निहत्य शत्रून् शतजवः सरितैश्च संविकीर्य त्रिपुवध महात्मा मुदम् मघमः कपिभितु पूज्यमानः इत्याशेय रामायणे वाल्मीकि अधिकारि युद्धकाण्डे द्विपञ्चाशत् सर्गः श्रीसीतारामचन्द्रार्पणमस्तु